हरि ओं सी श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे षट्चत्वारिंश सर्गः सीतालक्ष्मणाभ्यां सह श्रीराम स रात्रौ तटे निवासः तत्र मातुः पितुः अयोध्यायाश्च कृते तदीया चिन्ता सुप्तान् सौरजनान् विहाय तस्य वनं प्रति गमनम् ततस्तु तमसातीरम् रम्यी च राघव सीता मुद्दीक्ष सौमित्रीब्रवीत इम् निशा पूर्वा सोमित्रे पही वनम वनवास भद्रं ते नरण्यानि। चोत्कम पश्य यथा सिलय मैदी नीलिनानी मृगद्विजयी अद्य अयोध्या तु नगरी राजधानी पितुर्मम स्वीपुंसा गतानस्मान् शोचयिष्यति न संचयः अनुरक्ता हि मनुजा राजानम् बहुभिगुणै त्वां च मां च न भरतो तथा पितरं चानुशोचामि मातरम् च यशस्विनीम् अपि नाधो भवेताम् नौ रुदन्तो तावभीक्ष्णशः भरतः खलु धर्मात्मा पितरम् मातरम् च मे धर्मार्थकामसहिते वाक्ये आश्वासयिष्यति भरतस्य अनृशम् तत्त्वम् सञ्चिन्त्यहम् पुनः पुनः नानुशोचा पितरम् महाभुज या कार्य नरव्याघ्र मन व्रजता कृत अन्वे वैदेह रक्षा सहायता अद्भिवि सौमित्री वत्म्यशा एक रोचते मह्यं वन्य विविधे सतीक् सौम सुमंत्रु भय सौ मे तुवाच हैश्वान्मंत्रय सुपागते प्रभूत यभू प्रत्यन शिवाम तो शिवा सन्ध्यापागत राय शयन चक्रे सूत स्व मेत्रिणा सह तां शय्यां तमसा तीरे वीक्ष वृक्ष दलिर्वृतान् रामस्य मेत्रिणासाधम् तं प्रसुप्तं तु श्रान्तं सम्प्रेक्ष्य लक्ष्मणः कथयामास सूताय रामस्य विविधान् जाग्रतोरेव तां रात्रिं सौमित्रैरुदितो रवि सूतस्य तमसा रामस्य ब्रूतो गुणां गोकुलाय कुलतीराय तमसाय विदूरतः अवसरे तत्र ताम रात्रिम् राम प्रकृतिभिस्सह उत्थाय च महतेजा प्रकृतिस्ताय निजाम्य च अब्रवीत् भ्रातरम् रामो लक्ष्मणम् पुण्यलक्ष्मणम् अस्मद् व्यपेकान् सौमित्रे निर्व्यपेक्षान् गृहेष्वपि वृक्षमूलेषु संसक्तान् पश्य लक्ष्मणसाम्प्रतम् यथैते नियमम् पौरा कुर्वन्त्यस्मिन् निवर्तने अपि प्राणान् निश्चयम् यावदेव तु सन्तृप्ता तावदेव वयं लघु रथमारुह्य गच्छाम पञ्चानम् कुतो भयम् अतो भूयोऽपि नेदानीम् इक्ष्वाकूपुरवासिनः स्वपेयूनुवृत्तामा वृक्षभूले सु संश्रिता पौराह्यात्मकृतात् दुःखात् विप्रमोच्या नृपात्मजै न तु खल्वात्मनायोज्य दुःखेन पुरवासिनः अब्रवीत् लक्ष्मणो रामम् साक्षात् धर्मम् इव रोचते मे तथा प्राज्ञ क्षिप्रम् आरूह्यतामिति अथ रामोऽ ब्रवीत् सूतम् शीघ्रम् संयुज्यताम्रथ गमिष्यामि तदोरण्यम् गच्छ शीघ्रमित प्रभो संसरितः चन्दनं तैर्हयोत्तमये योजयित्वा तु रामस्य प्राञ्जलि प्रत्यवेदयत् अयं युक्तो महाबाहो रथस्ते रथीनां वर त्वरया रोह भद्रं ते सीता स लक्ष्मणः तं चन्दनम् अधिष्ठाय राघवे स शीघ्रगामा कुलवार्ताम् तमसाम् अतरन्नदीम् सत्यं सन्तीर्य महाबाहु श्रीमान् शिवम् मकण्टकम् प्रापद्यत महामार्गम् अभयम् भयदर्शिनां मोहनाथं त्वपोराणाम् सूतम् रामो ब्रवी त्वचः उदुन्मुख प्रयाहि सारथे मुहूर्तम् त्वरितम् गत्वा निवर्तय रथम् पुनः यथा न विद्युपौरा माम् तथा कुरुः समाहितः रामस्य सोवचः श्रुत्वा तथा चक्रे सारथी प्रत्यागम्य च रामस्य व्यञ्जनम् प्रत्यवेदयन् तावसम् प्रयुक्तम् तु रथम् समासीत् सदा सुपीतो रघुवंश वर्धनो प्रचोदयामासत सुरङ्गमान् प्रसारथिर्येन पथतपुवनम् ततः समासाय थीर ययो उदङ्मुखं तं तु रथं चकारण इत्याश्री श्रीमद् रामायणे वाल्मीकीयादिकवे योध्याकाण्डे षट्चत्वारिंशत् सर्गे श्रीसीता रामचन्द्रार्पणमस्तु